सः अन्धसस्पते परे दरिद्रत दरिद्रन्नीलोहित नील लोहितेति नील लोहित येषाम् पुरुषाणाम् पुरुषाणामेषाम् येषाम् मो इति मो येषाम् किम् किञ्चन क्षणामत् आममदिद्याममत् याते रे ते रुद्र रुद्र शिवा शिवा तनोः तनो विश्वाह भेषजीति विश्वाः भेषजी शिवा रुद्रस्य रुद्रस्य भेषजी भेषजीतया तया नः नो मृड मृडजीवसेरे जीवस इति जीवसेरे इमागुम् रुद्राय भद्राय तपसे तपसे तपर्दिने तपर्दिने एक्षयद्वीराय क्षयद्वीराय प्रयद्वीरायेति क्षयत् वीराय प्रभरामहे भरामहे भराम मतिम् मतिमिति मतिम् यथा नः हर्षम् शमसत् असद् विपदे चतुष्पदे द्विपद इति द्विपदे चतुष्पदे विश्वम् चतुष्पद इति चतुः पदे विश्वम् पुष्टम् पुष्टम् ग्रामे ग्रामे अस्मिन् अस्मिन्ननातुरम् अनातुरमित्यना पुरम् मृडानः नो रुद्र रुद्रोत उत नः नो मयः मयस्क्रुधे कृषे क्षयद्वीराय वीराय नमसा विधेम विधेमते स इति ते यत्सम् शम् च कयोः मनुरायजे आयजे पिता आयज इत्या यजे पिता तत् तदश्याम अश्याम तव तव रुद्र रुद्र प्रणीतो प्रणीता विदिप्र नीतौ मानः मो महांतम, महान्तमुत उतमा मानः नो अर्भकम् अर्भकम् वा मानः न उक्षन्तम् ओक्षन्तमुत उत मानः न उक्षितम् मोक्षितमित्योक्षितम् मानः न वधेः वधेः पितरम् पितरम् मा मोत उत मातरम् प्रियाः प्रियामा मानः नस्तनुवः तनुवो रुद्र रुद्ररेरुषः रेरुष रे रे रे इति रेरुषः मानः न स्तोके तोके, तोके तनये तनये मा, मानः नो गोसु गोसु मानः न अश्वेषु अश्वेषु रीरसः रीरिष इति रीरषः वीरान्मा मानः नो रुद्र रुद्रभामितः भामितो वधेः धे अविष्मन्तः अविष्मन्तो नमसा नमसा विधेम विधेमते इति ते आरात्ते यद्वीराय पूरुषघ्न इति पूरुषघ्ने क्षयद्वीराय सुम्नम् क्षयद्वीरायेति क्षयत् वीराय सुम्नमस्मे अस्मे ते ए अस्मे इत्यस्मे ते अस्तु अस्मेत्यस्तु रक्षा च चा, नः नो अधि अधि च स देव देवब्रूहि रो ह्यथा अथा च चा, क्षणः न शर्म शर्म यच्छ यच्छद्विबरः आह बरहा आह सुहृश्रुतम् श्रुतम् गर्तसदम् गर्तसदम् युवानम् गर्तसदमिति गर्त सदम् युवानम् मृगम् मृगन्न न भीमम् उग्रमेत्युग्रम् ृडाचरित्रे दरित्रे रुद्र रुद्रस्तवानः स्तवानो अन्यम् अन्यन्ते हे अस्मत् अस्मन्ये निबपन्तु पपन्तु सेनाः सेना इति सेनाः परिणः रुद्रस्य रुद्रस्य हेतिः हेतिर्वृणक्तु वृणक्तु परि परि त्वेषस्य द्वेषस्य दुर्मतिः दुर्मतिरघायोः दर्मतिरितिदुः मतिः अघायोरित्यघ योः अवस्थिरा शिलामघवद्भ्यः मघवद्भ्यस्तनुष्व मघवद्भ्य इति मघवत् ह्यः तनुष्व मेध्वः मेढ्वस्तोकाय तोकायतनजाय तनजाय मृडय मृडयेति मृडय मेध्वष्टमसि मेढश्रमेति मेढोः तम शिवतमशिवः शिवतमेति शिव तम शिवो नः नः सुमना आह सुमना भव सुमना इति सोमना आह भवेति भव परमे वृक्षे वृक्ष आयुधम् आयुधम् निधाय निधाय कृत्तिम् निधायेति निधाय प्रत्यम् निधाये वसानः आचर चर पिनाकम् पिनाकम् बिभ्रत बिभ्रदा आ गहि गहीति गहि दिवि हिरिद विलोहित नमः विलोहिते दिवि लोहित नमस्ते ते अस्तु अस्तु भगवः भगव इति भग वः यास्ते त्रे सहस्रम् सहस्रगुम् हेतयः ेतयोऽन्यम् अन्यमस्मत् अस्मन्नि निवपन्तु वपन्तु ताः ता इति ताः सहस्राणि सहस्रधा सहस्रधा बाहुवोः सहस्रधेति सहस्र धा बाहुवोस्तव वहेतयः हेतय इति हेतयः तासामीशानः ता ईशानो भगवः भगवः पराचीना भगव इति भगवः पराचीना मुखाः मुखा कृधिति मुखा कृधि Dhasas Pate Pate Dharidra